जीवस देर्घ्यायत्वा यमत्र समो स्वस्त्युत्तराण्यसीलापोऽस्मान्मातरस्तुन्धन्तु घृदेन पुणन्तु विश्वमस्मत्प्रवहन्त हृप्रमुदाभ्यश्रुचिरा पूतवे विसोमस्य तनोरचितं मे माहि महीनां वर्चोधा असि वर्चोमयधे हृद्रस्य घने े वाहि चित्पदिस्त्वा पुनातु वाग्पदिस्त्वा पुनातु देवस्त्वा सविता पुनात्मच्छिद्रेण दे दे दे पवित्रेण वसोः सो पवित्रपदे पवित्रेण यस्मैकम् गुणे दच्छके रमा देवा वो देवास देवहे सत्यधर्माणो अध्वरे गद्भो देवास आगुरे जग्निगासो हवामहविन्द्राग्ने ्यावामिसिभि आपभोषधे स्तन्देक्षाणामधिपतिरसि अमासन्तम् पाहि आगोहोच्चै विरुचे ङदे स्वाहा मेधायै न्तरिक्षं हविषा मृथा तु स्वाहा विश्वे देवस्य नेतुर् मत्वा प्रणेत सख्यं विश्वे राजकिशुध्यसंयम्नं वृणेत पुष्यसे स्वाहत्सामजो शिल्पेष्ठस्ते पामानभेदे मा शिक्षमाणस्ते भक्रतुं लक्षं वरुणसगं शिशाधिजयाधि विश्वादलितादले मसुलर्माणमथिनामगं हृहे क्ष पाहि मा मा माहि गुंसेर्विष्णा शर्मासि शर्म यमानस्य शर्म मे यणक्षत्राणां मादिपाशा त्वाहि मृस्य ज्यो निरसि माहिगुंसे कृष्ये पास सस्यादे स्वाहोरोरम् दरिक्षात् स्वाहारिज्ञम् वातादारभे दैवीम् शिलम्बनामहे सुमृटे कामभिष्टदेवचोधायज्ञवाहस बुन्धुवाराणो असद्वशे ये देवा मनो जाता मनो युतः सुदक्षा दक्षपितारस्तेनः पान्धुते नो बन्धुरेर्भनमस्तेर्भ्यस्वाहाग्ने त्वगुम् सुजागृहिभजगुम् सुमं दिशी महि गोपायनः स्वस्तये क्रोधेनः पुनर्दः त्वमग्नेवृतपा असि ते महामत्वेष्वा यज्ञेश्वर्यः विश्वे देवा अभिमापवृत्रं रुणाय पाणित्यैत्वात्रायत्वा देवी रापो अपान्नपाद्यं त्रियावान् मरिन्दमस्तं वोमावक्रमिशमच्छिन्नन्तं तु पृथिव्या अनुवेशं भद्रा देवागदुषम् तपोर्वरसामाभ्या यजुषा युयं ते शुक्रतमो हरितं वर्धस्तजा सम्भवभ्राजं गत्सजोरशिरामनसाधस्यास्ते सत्रस्य मृदमशि वैश्वजस्य चक्षुरारुहमग्ने रक्षणः कणीनिकायशीरसेभ्यायमानो मना सुरसि दक्षिणा सुजा स्यतिरस्सु भगतस्येष्लेशास् सुप्राचे सुप्रतेचे सम्भव मित्रस्त्वापतिपध्मादृपोषाध्वनः पात्विन्द्राजाध्यक्षायानुत्वा मातामन्यतामनुपितानुभ्राधासगर्भोऽनुसखासजोः सा देवि देववच्छसोपगुम् रुद्रस्त्वा वर्तयतु स्यसि रुद्रास्यतिरस्यादित्यासि शुक्रासि चन्द्रासि बृहस्पति स्वा सुद्रो वसुभिचगे दुर्ृथुव्या स्वाधन्न स्वाहा परिखितलिखिता परातमह युम् एक्षसोऽग्रीवा अभिक्रन्दा विजो स्मान्देष्ठियं च भजन् विष्णविदमस्य ग्रीवा अभिकृन्दाम् यस्मे राजस्त्वे राजस्तोधे राजस्सन्देविदे भुजोर्वश्यापश्य स्वपष्टिमजीदे सपे ग सुरे धारेतो दधानालम्बिदे च तव सन्दृशिवाहकं गुंशुनाथे मगुंशुः पृच्छताम् वरुषा परुर्गन्धस्ते काममवतु मदाय रसो अच्युतो मात्यो ग्रहो भित्यम् देवगुंस वितारपूण्यो कविक्रतुमर्चामि सप्तसवस गो रत्नधामभिप्रियं मलिमोर्ध्वाय प्रजाभ्यस्त्वा प्राणादत्वा ज्ञानादत्वा प्रजास्वमनुप्राणहे प्रजास्त्वमनुप्राणन्तो सोमन्ते क्रीणाम्योर्जस्वन्तं पजस्वन्तं वीर्जावन्तमभिमाधिशाहगं शुक्रन्दे शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेन सम्यत्तेबोरस्मे चन्द्राणि तपसस्तनोरशे प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोषं पुष्ण्यं जाश्च रमेण पशुना क्रीणाम्यस्मे ते बन्धुर्मयते राजश्रजन्तामस्ते ोदमविक्रजटितमो मित्रो नजय सुमित्रधायुन्द्र्योदमाकशदक्षिणमुषन् मुशन्तज्ञस्यो नस्योनग्रस्वानप्राजान्धारे मम्भारे हस्तसुहस्तकृशानवेदेव स्वमिक्रयणास्थाङ्गक्षम् मा बोदभन् उदायुषा स्वादुषा दोषधे नागं रसेनात् पर्जन्यस्य शुष्मेणोदस्था मम धागुम् अनो न्तरिक्षमन् व्यह्यदित्या सदास्य नित्यासीदास्तभ्याद्या दा वृषभो अन्तरिक्षममिमाणम् पृथिव्या आसीदद्विश्वाभुवनानि सम्राट् विश्वेतानि वरुणस्य व्रतान्तरिक्षन्ददा न वाजमर्वग्निजासहृत्सुकृतं वरुणो मिक्षाग्निन्दसौर्यमदधात् सो मम ग्रावम् जातवे यसूर्यम् गुस्वा वेदम् धूरुषाहावनश्रो अविरहणौ ब्रह्मचोदनौ वरुणस्य स्कम्भनमसि वरुणस्य स्कम्भसब्दनमसि प्रत्यस्थो वरुणस्य पाशः वस्य वस्व भुवस्पते विश्वान्यथा मानि मा विधन्मा त्वारिपन्थिना विधन्मा त्वा वृता अघायवो मा गम्भर्व विश्वावचलादघापदमानस्य नो महोदेवागतधृतगुंसपरिगत दूरे दृशे देवजाताय के दवे दिवस्तुत्रायसूर्गायशुंसवरुणस्य स्कम्भ नमसि वरुणस्य स्कम्भसज्जनमस्तुन्मुक्तो वरुणस्यपाशः अग्नेराधिक्षम श्री विष्णवे त्वा सोमस्यातिक्षम श्री विष्णवे त्वातिथे राधिक्षमसि विष्णवे त्वाग्नेदे त्वा राजस्वोषदान्ने विष्णवे त्वाश्रे नाय त्वा सोमभृते विष्णवे त्वाजाते गजं दिदा विश्वापरिघोरस्तु यज्ञं न्ययस्थानः प्रदमण सुवीरो वीरः प्रजदा सोमधुर्यान ्रतो वारुणवसियो देवानागं सख्यान्मा देवानामपसष्ठि सख्यापतरे त्वा नाधिष्ठवानामोजाभिषस्तिपा अनभिषष्ठेऽन्यमनुमे दीक्षाम् दीक्षापचर्म्यतामनुतपस्तपस्तरञ्जसा सत्यमुपदेशकम् सुवित माधा ंसुरगं स्वस्तेदेव सोमाव्यायदामिन्द्राजे कथनविद आबुद्ध्यमिन्द्र व्याजदामाप्तमिन्द्राय व्याजस्ताव्यायजसखेन् संज्ञा मेधया स्वस्ति चेदेव सोम सुत्यामशीलष्टाय प्रेषय भगायत्तमृतवायुभ्यो नमो दिवे नमः पृथिव्याग्ने पृतपदे त्वं वृतानां मृतपतिरसिजाममम तनो रेषा सात्वजिजातव तनु रिजगुंसामधिसहनौः व्रतपदे भ्रतिनोह्रता निजाते अग्ने रुद्विजातनोऽस्तया न हि तस्यास्ते जाते अग्ने राशजा रजा सया हराशया धनोर्वरिषेष्ठगह्वेष्ठोऽग्रम् वचो अपावधे शम्बचो अपावधि विस्वाहा क्ताजनिमेषक्ताजनिमेषस्यवतान्मा याचितमवतान्मा यसितं विदेको नामाज्ञे अङ्गिरोजोऽस्यामृषरुदामस्यादृषा नाम्नेलत्तेनाथन्नाम यज्ञदन्ते न ना द्वादशे द्े अङ्गिरोजो ृथविरामस्यायुषाणां नेहयत्वेन धत्वा स्थिरप्रभस्वरुके यज्ञपदः प्रभतां ध्रुवासि देवेभ्यः शृम्भस्म देवेभ्यः शुम्भस्मेन्द्रघोषस्त्वावसभ्यः पुरस्ता दक्षिणतः प्रजदास्मा रुद्रे तस्यात्मा तुम्भेरसिलवज्ञसाहे स्वाहा सिगुम्भेरसि सुप्रजापनिस्वाहाम्भेरसिराजस्वाशवनिस्वाह सुम्भेरस्यादित्यवनिस्वाहा गुम्भेरस्यावहदेवान्देवगते रजमानाद स्वाहाभ्यस्त्वा विश्वाजुरसि ऋषिवे क्षितस्यम्बरक्षम् दृगम् हाचि वक्षितसि दिवम् दृगम् हाग्ने भस्मास्यग्नेः पुरेशमसि युञ्जते मल हुदयुञ्जतेप्रा विप्रस्थ गृहतो विपस्थितः भाविदे गजन्महे देवस्तसविदुः परिष्तुः ेव दुर्भागुम् नावददे वस्वतौ देवेश्वाघोषे सामानो वीरो जालताङ्गम् मण्यो जगुम् सर्वेऽनुजैवामजो बहू नाम सद्वशी इदम् विष्णुर्विचक्रमे त्रेधानिदधे पदम् समोठमस्य वागुम् सुरगिरावतीधे नुमजे भूतकम् सूर्यपतिनी मनवे यस्कभ्राद्रोदसे विष्णुरेते ताधारपृथिवेमभितोमयोखैः प्राचे प्रेतमध्वरम् कल्पयन्ति कोर्ध्वैर्यम् नयतम् माजेश्वरतमत्र रमेथाम् वस्मन् पृथिव्या जिवो वा विष्णुभुत वा पृथिव्या महो वा विष्णुभुतरिक्षाद्धस्तौ पुणस्तवधर्मसौरा प्रयच्छ दक्षिणादो दौव्याच गम् ये ज्ञानि प्रवोचन्यः पार्थिवानि विभमेलुम् श्रियोरगम् सधस्थम् विचक्रमाणश्रेधोरुगायो विष्णो नरा नमः श्रीविष्णोः पृष्ठम श्रीविष्णोश्च प्रेष्णास्योर श्रीविष्णाघ्रुम शिवैष्णवम श्रीविष्णवे त्वा ऋणुष्वपाजः प्रसितन्न पृथस्वेङ्गाहिराधेवामेव प्रसितेन्द्रो नामास्तासि विध्य रक्षसस्तपिष्ठैः तव भ्रमाश आशुयापतम् चनसृशताशो शुचानः तपो विष्यग्ने योनो दोरे अघशगुम् सो योनम् जग्नेष्पेरादधर्षेत् उदग्ने तिष्ठ प्रत्यातनुष्वण्यमित्राकम् रोषतात्तिग्महेते योनो अरातिकम् समिधानचक्रे नीचातम् धक्ष्यत सन्न शुष्कम् ओर्ध्वो भवप्रतिबिद्धाध्यस्मदा विष्णुणष्वदेव्याण्यग्ने अवस्थिरातनुषजाति चूणाः जामिमजामि नणेः शत्रूणि सुमलिङ्गमिष्ठलयैव ते ब्रह्मणे गातुमैरद् विश्वाहान्यस्मै सुनानि राजोद्युम्नान्यो विदुलो अभिज्ञोर्ग्ने अस्तु सुभगः सुदानु यस्थानित्येन हविषालमुक्षैः प्रेषति स्वायिषतुे विश्वेदस्मै सुतिभासा स दिष्टिः पर्चामिते सुमदि शर्वासन् देवाता जनतामिजङ्गे स्वस्वाहा स्वा सुरथामर्जते मास्मे क्षत्राणि धारते न मद्योन् इह क्त्वा भोरुजाचरे तु पद्मम् दोषापस्तर्दे दिवाकम् समर्ज्योन् क्रीडन्तस्त्वा सुमनसस्तपे माभिद्युम्ना तस्य वाकुम् सो जनाना यस्वा स्वस्तस्य हिरण्यो अग्नमुपजादिवसुमतारसेना तस्य त्राता भवसि तस्य सखादस्त आदिथ्यमानुषद्विजोषत् महोऽनुजामि बन्धुतावचोऽभिस्तन्मापितुर्गोतमादन् विजा त्वं अस्वप्नस्तरणज सुषेपाकथम् द्रासो मृगा अश्रमिष्ठाः ते पायवस्वधिकम् चो निषद्याग्ने तव णः पान्तमोर ये पायवो माम तेजम् ते अग्ने पश्यन्तो अन्धम् तु वितान् रक्षतान् सुकृतो विश्ववेदादिपो नाह देभुः यापदुंसधन्यस्पोदास्तवप्रणेहेत्यस्याजान् उभाषकुंसा सोदयसत्त्वतादेन मया ते अग्ने समिधामिधे वप्रति स्तोमगम् शस्यमानम् लृभाय दहाससो रक्षसः पाह्यस्मान् नृहो निजो मित्रमहो अवद्यात् रक्षोहणम् वाजिनमादि खल्मित्रम् रसिष्ठमुपया विशन्वा शिशानो अग्ने कृतभिः समित् हस्स नो दिवासरिषः पातु ज्योतिषा जहताभात्यग्निराविर्विश्वा निर्णुदे महित्वा रा देवेर्माया सहते दुरे वा शिषि जयशृङ्गे रक्षसे निक्षे उत स्वानासो दिविषम् भग्नेस्तिग्मायुधा रक्षसे हम् धिरस्य प्रणुजम् दिभा मानवरम् देवनि माधो